तस्मिन्नुपरते शब्दे भीमसेनो ब्रवीदिदम् प्रगृह्यरुचिरम् दिव्यम् भुजम् चन्दनचर्चितम् भीमसेन उवाच यद्येष गुरुरस्माकम् धर्मराजो महामनाः न प्रभुः स्यात्कुलस्यास्य न वयम् मर्शयेमहि ईशो नः पुण्यतपसाम् प्राणानामपि चेश्वरः मन्यते जितमात्मानं यद्येष विजिता वयम् न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् मर्त्यधर्मापरामृश्य पाञ्चाल्या मूर्धजानीमान् पश्यध्वम् ह्यायतौ वृत्तौ भुजौ मे परिघाविव नैतयोरन्तरम् प्राप्य मुच्येतापि